अध द्वादशस्कन्धः पश्चात्कलेर्वृद्धिकाले दुराचाराजनाभुवि परस्परम् विहिंसन्तः क्षुद्राक्लेशावाग्नुयुः कलेरन्ते कल्किरूपी हरिर्हत्वा दुराश्रयान् धर्मम् प्रवर्तयन् लोके कृतम् संस्थापयिष्यति कीर्तनाच्छ्रवणाध्यानाद्धरिर्हृदयमाश्रुदः सर्वान्दो शान्धत्याशु कलिदोषभवानृणां नैमित्तिकस्तु कल्पान्धे नित्यसूक्ष्मप्रदिक्षणं ब्राह्मणोन्धे प्राकृतिको ज्ञानाधात्यन्तिकोलयः संसारसिन्धुधरणे प्लवो नान्योऽस्ति कुत्रचिद अरेर्गुणानुश्रवणात् विना भक्र्यादिवर्धकाद जातस्यैव विनाशस्यात् दहो जादो विनश्यति न जादोहमदकस्मान् मम नाशो भविष्यति इति देहात् पृथक् त्वेन भावयात्मनमच्युदम् तक्षकादिभयन्न स्यात् स्वात्मानं सम्प्रपश्यतः यदि योगीश्वरेणोक्तपरीक्षिच्छिन्नसंशयः प्रणम्यपादयुगले प्रावोच स्वकृतार्थताम् अनुगृह्य स्वतन्त्रस्थम् निर्जगामशुकोमुनिः राज्ञशरीरम् सन्दह्य तक्षकोऽपि विनिर्ययौ निग्रहार्थं तक्षकस्य प्रवृत्तो जनमेजयः प्रार्थितो देवगुरुणा व्यरंसीत् सर्पसत्रदः वेदा विभक्ताश्चत्वारो व्यासेन परमर्षिभिः नानाशाखोपशाखाभिर्विस्तृता प्रचकाशिरे दशभिर्लक्षणायुर्युक्तान्यष्टादशमहामुनिः व्यासश्चक्रे पुराणानि लोकानुग्रहकाम्यया मार्कण्डेयो हरिं दृष्ट्वा प्रलये तुष्टमानसः पुराणमेकं चक्रेसौ स्व। रुद्रस्यानुग्रहात् स्वयम् अङ्गोपाङ्गादिरूपेण जगत् सर्वं हरौ स्थितं प्रतिमासं नाम भेदः सगणस्य विवस्वतः यथा मदिमया प्रोक्तं पुण्यं श्रवणमङ्गलं रसायनं भुव्याधिनिवर्तकमनुत्तमं मुमुक्षूणां विरक्तानां चित्तशान्तिप्रदं शुभं मुक्तानामनुभव्यं तद्यस्यो भगवदो मलं शृणुयात्कीर्तयेद्यस्तु स कीर्तार्थो न संशयः यन्मुखोद्वलितम् श्रुत्वा पुराणम् वेदसंमिदम् मुक्तपरीक्षित्तम् वन्दे सुखम् ब्रह्मस्वरूपिणम् स्वातन्त्र्यम् नास्ति मे किञ्चित् प्रेरको भगवान् तेन प्रीयताम् हरिरीश्वरः चुशे पंज सहस्रे वत्सरे कलौ गर्षे भूद्रंथों कृपया हरे यदि द्वादश ओम।